श्रीहरये नमः अतत्रिंशोऽध्यायः कपिल उवाच तस्यैतस्य जनो नूनं नायं वेतोरुविक्रमं वे काल्यमानोऽपि बलिनो वायोरिवघना बलिः यं यमर्थमुपादत्ते सुखहेतवे तं तं दुनोति भगवान् पुमान् सोचति यत्कृते यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मते। मन्यते मोहात् गृहक्षेत्रवसूनि च जन्तुर्वै भवये तस्मिन् यां यां योनिमनोव्रजेत् तस्यां तस्यां स लभते निर्वृतिं न विरज्यते देहं वै न पुमान् त्यक्तुमिच्छते नारज्ञां निर्वृतौ देवमाया विमोहितः आत्मजाया सुताघार पशुद्रविणबन्धुषो निरूढमूलहृदय आत्मानं बहु मन्यते सन्दह्यमान सर्वाङ्ग करोत्यविरतं मोढ तुरितानि दुराशयः आक्षिप्तात्मेन्द्रियस्त्रीणाम् ना, असतीनां च मायया रघोरचितया लाभे शुषुनां कलभाषिणां गृहेषु कूढधर्मेषु दुःखन्द्रेष्वतन्द्रतः कुर्वन् दुःखप्रतीकारं सुखवन् गृहे अर्थैराभाधितैर्गुर्व्या हिंसयेतस्ततश्च तान् पुष्णाति येषम्भोषेण शेषभोग्याद्यथ स्वयं वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः लोभाभिभूतो निसत्व परार्ते कुरुते स्पृहा कुटुम्बभरणाकल्पो मन्दभाग्यो व्रतोद्यमः श्रियाविहीर्णकृपणो ध्यायन् स्वसृति मूढतेः एवं स्वभर्णाकल्पं तत्कलत्राधयस्तता नाद्रियन्ते यथा पूर्वं कीनासा इव तत्राभ्यजातनिर्वेधो म्रियमाणस्वयं हृदैः झरया उपात वैरोप्यो मारणाभिमुखो गृहे आस्त्येव मत्योपन्यस्तं गृहबालयिवाहरन् आमया प्रदीप्ताग्नि अल्पहारोऽल्पसेष्टितः वायुनोत्क्रमतोत्थार कपसंरुद्धनाटिकः कास श्वासकृतायास कण्ठे गुरगुरायते सयानः परिशोचद्भिः परिवीतसबन्धुभिः वाच्यमानोऽपि न कालपासवसंगतः एवं कुटुम्बभारेण व्यापृदात्मा अजितेन्द्रियः म्रियते रुदतां स्वानां मुरुवेदनयास्तधीः यमदूतौ तथा प्राप्तौ भीमौ सरबशेषणौ स सक्रोन मूत्रं विमोञ्चति यदानाधेह आवृत्य पाशेर्बत्वा कलेबलात् नयतो दीर्घमद्वानं दण्ठ्यं राजभटायत तयोर्निर्भिन्नहृतयस्तर्जनैर्जातवे बतुः पतिस्वभिर्भक्षमाण आर्तोघं स्वमनुस्मरन् शुद्रुट्परितोर्कधावानलानिलैः सन्दव्यमानपदि तप्तवालुके कृच्छ्रेण पृष्टकसया ताडितश्चलयक् स्तो विनिराश्रमोदके तत्त तत तत मूर्छितः पुनरुत्थितः पथाबायी सा नीतस्तमसायमसाधनं यो नवतिं नवशात्वनः त्रिभिर्मुहूर्त्रैर्द्वाभ्यां वा नीतः यातनाः आदिपनं स्वगाद्राणां वेष्टयित्वोल्म ौकादिभिः आत्ममां साधनम् क्वापि स्वकृतम् परतोऽपि वा जीवतः दशद्भिश्च आत्मवैससं कृत्तनं सावयवसो गजादिभ्यो भितापनम् पातनं गिरिशृङ्गेभ्यो रोदनं शाम्बुकर्तयोः यास्तामिश्रां ददतामिश्रा रौरवाद्याश्च यातनाः भुङ्क्ते नारवानारिभा मितेन निर्मिताः प्रचक्षते यायातना वैर्नाराज्ञस्था इहाप्युपलक्षिताः एवं कुटुम्बं बिभ्राण उदरम्बर एव वा विसृज्येहो भयं प्रयत्य भुङ्क्ते तत्पलमीदृशम् एकप्रबध्ये ध्वान्तं हित्वे स्वकलेवरं स्वकले वरं कुशलेतरपादेयो तस्य समलं निरये भुमान् भुङ्क्ते कुटुम्बपोषस्य प्रतवित्तयि वातुरः केवलेन ह्यधर्मेण कुटुम्बपरणोत्सुकः याति जीवो दतामिश्रं सरमं तमसः पदम् अधस्तान्तरनलोकस्य यावतीर्यातनादयः क्रसमः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कपिलेयो भाग्याने कर्मविभागो नाम त्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमगराजिकी जय